अथ श्रीदक्षिणामूर्तिपूजाविधिः जैमिनिर्वाच माक्रण्डेय तपोमोत्ते सर्वमन्त्रविदोत्तम ब्रूहिपूजाविधानं मे श्रोतुमिच्छामि तद्वतः माक्रण्डेय उवाच पूजाविधानम् वक्ष्यामि चागस्त्योक्तम् पुरातनम् भृगुणाम्ने मुनीशाय भक्तानामिष्टसिद्धितं। नदेयं देयम् पापचिन्ताय शुण्डायादिदुरात्मने शुचये चैव वक्तव्यम् विप्रायादिमहात्मने पठनात् श्रवणाद्यस्य सिद्ध्यष्टकमवाप्नुयात् नमामि नन्दिनं चण्डं प्रचण्डं गणनायकम् शूलिनं परशुं शम्भुं भृङ्गिणम् ऋतिनामकम् दण्डुं नन्दीश्वरं रुद्रं गृहं गृहपतिं तथा द्वारश्रियम् अहं वन्दे वास्तवं भुवनेश्वरं गङ्गां गोदावरीं वन्दे यमुनां च सरस्वती गौतमीम् कृष्णवेणीम् च कावेरीम् नर्मदाम् तथा आधारशक्त्यै कूर्माय चानन्दाय नमो नमः प्रत्यै प्रीत्यै नमस्तुष्ट्यै पुष्ट्यैकान्त्यै श्रियै नमः क्षान्तिः क्षमा प्रभाज्योत्स्ना गतिर्बुभिर्धृतिर्मतिः णिमा महिमा प्राप्तिर्गरिमालगिमा ततः प्राकाम्यम् च तदेशत्वम् वशित्वम् भुक्तिरूपिणी ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी शिवा वाराही चापि चामुण्डा नारसिंहेन्द्र सुप्रिया सद्यो जातमः देव तत्पुरुषा घोररूपवाण भवः सर्वः पशुपतिरीशानः शूलभृत्प्रभुः सनत्कुमारः स न को मुनिः स नन्दनो दृश्य पराशरात्मजः सुषोऽवशिष्टो भृगुणारदौ च पराशरः कश्यप नाम देयः वासुकिस्तक्षको नागो अनन्दः तत इन्द्रोऽग्निर्धर्वौ च राक्षसो वरुणो मरुत् कुबैरीश्वरः पश्चात् शशिसंहारिणौ तथा तामसी मार्गवीपश्चाद्गतिः सम्पत्तिरीश्वरी शूलं चक्रं च खड्गं च मुसलम् उद्गरं तथा परशुम् बिण्डिबालं च शस्त्रं पाशुपदं तथा कल्पद्रुमः कामदेनुः पारिजाततरुस्तथा योगपीठो रत्नपीठो हेमपीठस्तथैव च ततश्च मूलमन्त्रेण पूजयेत् परमेश्वरम् एवम् यः पूजयेन्नित्यम् स सर्वाभीष्टमश्नुते स्तोत्रमेतत्पटेद्यस्तु नित्यम् प्रातः समाहितः सवानीशसमो बुद्ध्याघनतेन समश्रिया कामेण सदृशकान्त्या शीघ्रमेव भवेद् ध्रुवम् इति पूजाविधानान्ते प्रोक्तमिष्टप्रदायकम् वक्ष्यामीलम्बरम् किन्तु श्रोतुमिच्छसि सूरत